क्षमा प्रार्थना ॐ विसर्गं भद्वमात्राणि पदपादाक्षराणि च चा न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वर अपराधसहस्राणि क्रियन्ते अहर्निसम्मयां तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम मध्ये मन्त्रतन्त्रस्वरवर्णध्याननियमन्यूनातिरिक्तलोपदोषप्रायश्चित्तार्थम् अच्युतानन्तगोविन्दनामत्रयमहामन्त्रजपं करिष्ये ॐ अच्युताय नमः ॐ अनन्ताय नमः ॐ गोविन्दाय नमः कायेन वाचामनसेन्द्रियैर्वा बुद्ध्यात्मना वा, वा प्रकृते स्वभावं करोमि यद्यत्सकलं परस्मै नारायणायैति समर्पयामि ॐ हरि ओं तस्सत् श्रीरामकृष्णार्पणमस्तु